श्रीमद्भागवत् महापुराणं नौ निस्कन्ध भगीरश्चरित्र और्गङ्गावतरन् श्रीशोकुवाच अंशुमाश्च तपस्तेऽपि गङ्गा नेन काम्यां कालं महान्तं नाशक्नो ततः कालेन संसितः दिलीपस्तत्सुतस्तद्वन् अशक्तकालमेयिवान् भगीरथस्तस्य पुत्रस्तेऽपि स सुमहत्तपः दर्शयामास तं देवी प्रसन्ना वरदास्मि ते तत्यक्त स्वयमभिप्रायं ससंसावनतो नृपः कोऽपि धारयिता वेगं पतन्त्या मे अन्यथा भूतलं भृत्वानपि यास्ते किञ्चाहं न भुवं यास्ये न रामय्या मृजन्त्यघुघं भ्रजामि तदघं कुत्र राजन्तत्र विचिन्त्यताम् भगीरथुवाच साधु न्यासि न शान्ता बहिर्ब्रह्मिष्ठालोकपावनाः हरन्त्यघं तेऽङ्गसङ्गात ते स्वासे धार्यचित्ते वेगं रुद्रस्त्वात्मा शरीरिणां यस्मिन्नोतमिदं प्रोतं विश्वं साटीव तन्तु सो इत्युक्त्वा स निपो देवं तपसातोषयच्छिवं कालेनाल्पीयसा राजन्तये समुत्ष्यत तथेति राज्ञाभिहितं सर्वलोकहितः शिवः दधारावहितो गङ्गां पादपूतजलां हरेः भगीरथसराजर्षिणन्ये भुवनपावनीं यत्र स्वपतृणां देहाभस्मीभूता स्मसेरते रथेन वायुवेगेन प्रयान्तम् अनुधावतीं देशान् पलन्ति निर्दग्धान् असिञ्चन् सगरात्मजान् यज्ज्वलस्पर्शमात्रेण ब्रह्मदण्डहता अपि सगरात्मजादिवं जग्मु केवलं देहभस्मभि भस्मे भूताङ्गसंज्ञेन स्वर्याता सगरात्मजाः किं पुनः श्रद्धया देवं ये स्वे सेवन्ते धृतव्रताः न हेतत्परमाश्चर्यश्वधुर्ण्यां यदि अनन्तचरणाम् भोजप्रसूतायाभवच्छिदः सन्निवेश्य मनो यस्मिन् श्रद्धया मलियोमलाः त्रैगुण्यम् दस्यजं हेत्वा सद्यो याता तदात्मताम् श्रुतो भगीरथा जज्ञे तस्य नाभो परोऽभवत् चन्द्रदीप ततस्तस्मान् अयुतायुतस्ततोभवत् ऋतपर्णो नखसखो योष्वविद्यामयान्नलात् विद्यामयान्नलात, हृदियं चास्मै सर्वकामस्तुतः सुतः ततः सुदातस्तत्पत्रो मदयन्ति पतिर्नृप आहुर्मित्रसहं यैं यं वै कल्माषाङ्घ्रीमुत क्वचीं वसिष्ठशापाद्रक्षो भूज अनुपत्य स्वकर्मणां राजवाच किं निमित्तो गुरोशाप सौदासस्य महात्मनः एतद्वेदितुमीक्षाम कथ्यतां न रहो यदि शेषु उवाच सौदासो मृगयां कश्चिच्चरन् रक्षो जघानः मुमोच भ्रातरं सोऽथ कृतः प्रचिकीर्षयां सचिन्तेनघं राज्ञूरूपधरो गृहे गुरुवे भोक्तु पक्वा निन्दे नरामिषम् परिवेक्षमाणं भगवान् विलोक्या भक्षमञ्जसां राजानमस्पतन् क्रुद्धो रक्षो हेवं भविष्यसे रक्षकृतं तद्विदित्वा चक्रे द्वादश वार्षिकम् सोऽप्योऽ सोऽप्यपोऽजलिनां दाय गुरुं शब्दं समुद्यतः वारितो मदीयन्त्यापोरुसुतीपादियोर्जहौ दिसखं वनीं सर्वं पश्यन् जीवमयं नृपः राक्षसं पादे कल्मासुतां गतः व्यवायकाले दधिसेवनौ को दम्पती द्विजौ क्षुधार्तो जगृहे विप्रं तत्पत्न्याः कृतार्थवत् न भवान् राक्षस साक्षाद्भिक्षाकूणां महारथ मदयन्त्या पतिर्वीर नाधर्म कर्तुमर्हसि देहि मे पत्यकामाया अकृतार्थं पतिं द्विजम् देहोऽयं मानसो राजन् पुरुषश्चखिलार्थद तस्मादस्य वधो वीर सर्वार्थवधूच्यते एष हि ब्राह्मणो विद्वान्तपशीलगुणान्वितः आरिराधयीशुर्ब्रह्म महापुरुषसङ्गीतं सर्वभूतात्मभावेन भूते स्वन्तर्हितं गुणै सोऽयं ब्रह्मर्षिवर्यस्ते राजर्षिप्रवराद्विभो कथं कथमर्हति धर्मज्ञ वधं पेद्दोरिवात्मजः